सोमस्य त्रिशीरस्यग्नये स्वाहा सोमायस्वाहा पवित्रे स्वाहा सरस्वती स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहा इन्द्राय बन्धुस्तपो जातोमस्य धात्रमसि स्वाहा क्षत्रस्योऽल्पमसि क्षत्रस्य जनाइमसि क्षत्रस्य नाभिरसि क्षत्रस्य योनीरसि इन्द्रस्य पात्रघ्नमसि त्वयायम् वृत्रम् मध्यान् मित्रस्यासि वरुणश्चसि रुचाभिधृपासिक्षुपासि पातेनम् प्रान्तम् पातैलम् प्रत्यन्तम् पातैलम् हर्यन्तम् दिग्धः पाता आविर्ववित्तौ अज्ञरा वित्त इन्द्रो अभृद्भ्र वा आवित्त भूषा विश्ववेदा आवित्तौ मित्रावरोणौ भृतौ रतौ आवित्तेद्यावा आ पृथिवी विश्वसंभू आवित्तादि हवे नष्टादन्दशो काह्चीमारोह गायत्रीत्वा आवतु सन्तरज्ञे धामत्रिभृत्वमोऽ वसन्तर्गत् ब्रह्मद्रवीणम् दक्षेधामारोहदृष्टुत्वा आवतु बृहत् स्वाम पञ्चदशस्तोमो अग्रेष्मऋतुक्षत्रम् द्रवीणम् कतीमारोह भजगती स्वावतु वैरूपज्ञामसप्तदशस्तोमोः वर्षादसर्विद्रवीणम् उदी एमारोह हारिष्टावतु ीराजज्ञे सा मे कविज्ञ शरदतुः फलम् द्रवीणम् वोर्ध्वा मारोहपङ्क्ति स्वागतु सा परदैवते सामाने तृणवत्रयत्रिज्ञोमो हेमन्त प्रत्यसन्नमुचे शिराः सोमस्य त्रिशीरसितमे एव मे त्रिषद्भूयात् मृत्योः बाह्यो जो असि सः अस्य मृतमसि हिरन्यरूपा वृषसो हतम् वरुणमित्रगर्षन्ततश्चक्षाथामती किम् हि दिंदि किम् च मित्रोऽसि वरुनोति सोमस्यत्वाभ्युम्नेनाभिषिन् चान्यज्ञेभ्राजसा सुवर्यस्य वच्च सा इन्द्रस्येन्द्रियेण मरुतामोजसा क्षत्राणाङ्क्षत्रपातिभेद्यति हि द्योन्पा आहि इमन्दे एवासपत्नग्ध्वम् महते क्षत्राय महते जीक्षाय महते जानराज्याय इमममुममुष्य पुत्रममुष्या अप्पुत्रवह्यै दिशे एषवः पुरभो राजैषवः पञ्चाला राजा सोमोऽस्माकम् ब्राह्मणानाख्ये राजाः प्रफल्लतस्य विषभस्य विष्टान्नावस्रगन्ति स्वसि चिजानाः आवद्रन्नशलागु दत्ता अहिम् बुद्धिनमनुरीयमाणाः विष्णोर्विक्रम नमसि विष्णोर्विक्रान्तमसि विष्णो अक्रान्तमसि प्रजा आपदे न तदेतान्यो विश्वारूपाणि परिताबभूवा यत्ता आमास्तेजुहुमस्वन्न अस्तु वयज्ञस्या आमपतयो रयीणा हृद्रयत्ते प्रविपरम् नाम तस्मै हुतमस्य मेष्टमसि स्वाहा इन्द्रस्य वज्रिमित्रावरुणयोस्वा प्रभास्त्रिषा आयुनध्मि अव्यथा ये यथा ये यस्वारिष्ठल्पूनः मरुतान्तसेन जाताभमनसहसमिन्द्रियेण माता इन्द्रते भयन्तो राषाणयुक्ता सो अब्रह्मता विदसामा ष्ठारथमधियद्वग्रहस्तारस्मीन्द्रे वयुवसेष्व स्वान् अनुनये गृहपतजे स्वाहा सोमायवनःपतये स्वाहा इन्द्रस्येन्द्रियाय स्वाहा मरुतामोजसे स्वाहा वृथीनिमा कर्मा मा आहि अहम् त्वाम् अग् सत्सूचिषत्त्वसूरन्तरिक्षसद्भोता आवेदिकसीरोणसत् नृगत्वा रसत् ततस्यो मसदब्जा गोजादितजा अद्रिजा नृतम् बृहत् यदस्यायो दस्यायम् मे देहितो अतिमत्त ओ मे देहि ओ अर्जस्यो अर्जम् मयि देहीन्द्रस्य वाम् बा भूयि अर्घ्यकृता गुपावहरामि योनादि सुषदा यो नामासे ईदश सदामासे ईदक्षत्रश्च यो निमासीदा निशतादधितौ रतो वरुणः पत्या स्वाम्रा अज्याय सुक्रतुः अभिभूदत्यया नामे तास्ते पञ्चदिश कल्पन्ताम् ब्रह्मव्यस्तम् ब्रह्मासि सवितासि सत्यप्रसभो वरुणोऽसि सत्यौजाः इन्द्र ओसि दिशौ ऊजा रुद्र ओसि सुवाः इन्द्रस्य वज्र ओसि अग्ने प्रकृर्धर्मा नस्पतिद्युषाणो अग्ने प्रकृर्धर्मा नस्पतिः आद्यस्य हविषो वेत स्वाहा पाः ्राप्र सदित्रा सरस्वत्या वाचा सुत्रापे पूष्णा पशुभिरिन्द्रेणास्मै बृहत्परिणा ब्रह्मणा वरुणेनौ च साग्निना ते च विष्णो नादेवस जादसम् देवम् यज्ञम् विष्णो माप्नवामि पस्मिर्भ्याम् पच्यस्व सरस्वती वृत्स्वेन्द्राय सुणे पच्य इन्द्रस्य युज्यसखा कुपिदम् गवमन्तो यवन् इत्यथादान्त्यनुपूर्वम् विजूयात् इहेहैषाम् कृणुहि भोजनानि ये बर्भिषो नम गुप्तिर्न जग्मुः उपयामगृहीतोस्य भ्राम् युवग्ने सुरामस्वि ना नूचा आशुरे स च इति पानाशोभस्पती पितरा आ अस्ति यत्सुराम्यपि बत्सति एभिः सरस्वती क्वामघवन्नभिष्णत् ओ इति एकादशोऽध्यायः अथ द्वादशोऽध्यायः को नः प्रथमम् मनःसत्त्वाय सविता धियाः अग्नेऽद्योतम् निदाय्या पृथिव्या अध्याभारत युक्ते न मनसा वयम् देवस्य स वितुस्तरे स्वर्गेया आयसख्या युक्त्वाय सविता देवाम् स्वर्गतो धिया दिवम् बृहज्योतिः करिष्यत स्वतिकान् इञ्जते मनवृत इञ्जते भ्यो विप्रा विप्रत्य बृहतो विपश्चिताः विहोत्रा आदधेवयुना विदेकयिन्मही देवस्य स वितुः परिष्कुतिः देवाम् ब्रह्म पूर्व्यम् ये तु पथ्ये एव सूरे शृण्वन्तु विश्वे आये भामानि दिव्यानि दत्तुः यस्य त्रयानमम् वन्ययि ययुर्देवा देवस्य महिमा नमो जयसा यः पावालि ममे स एत शोरजा अग्निदेवः सभितामाहि त्वना देव पवितः प्रसुवयिज्ञम् प्रसुवयिज्ञपतिम्भगाय इन्दोगम् भर्वः के एतपोः केतम् अह्नातु वाचस्पर्वाचन्नस्वदतु इमन्वा देवसवितर्यज्ञम् प्रणायदेभाव्यज्ञसखि तज्ञम् भ्रणजितज्ञसर्जितम् पिता सोमज्ञजगायत्रेण रथन्तनम् बृहद्गा यत्र वक्तनि स्वाहा सदितुः प्रसंष्टिनो अष्टबाहुभ्याम् कूष्णोहस्ताभ्याम् आददे गायत्रे न छन्दसाङ्गिरस्त्वृथिव्या सधत्था आदग्निम् पूरीष्ट भङ्गिरस्तदाभागा श्रेष्ठोभेनच्छन्दिरस्त्वत् ेन सिनार्य चित्वया आभयमग्निज्ञ स केमखनीतुम् सधस्थ जागते न छन्दसाङ्गिरस्त्वत् हस्त आधाय सभिता विभ्रलभ्रिज्ञहिरन्यये अग्नेऽद्योचन् निचाय पृथिव्या अध्याभरदा नक्षभे नन्दताङ्गिरस्वत् प्रतोम् वायिन्नाद्रवववरिष्ठामनुसंवतम् विविते जन्म परममन्तरिक्षेतवनाभिः पृथिव्यामधियो निरित् जाताभैव मत्मिञ्जामे वृषण्वसु अज्ञम्भरम् तमस्मयुम् योगे ए योगे योगे तवस्तरम् वाजे ए वाजे हवामहे तथा आजिन्द्रभूतये तोर्वन्नेक्य वक्त्रामन्नषस्थे रुद्रच्छगाणपत्यम् मयो भूरेः कुर्वन्तरिक्षम् वीः स्वस्ति गौः योगिरभयानि कृण्वन् पूष्णातयुजा आसहा पृथिव्यात्सधस्था अग्निम् पूरीष्यामङ्गिरस्त्वदत्थे एवमोऽग्निम् पूरीष्यामङ्गिरस्त्वरिष्यामः अन्वग्निरुतदामग्राम्यदन्वहा आदिप्रथमो जातवे एदाः अनुसूर्यस्य पुरुत्रा च रश्मेन नृत्या वा आपृथिवी आततन्ता आगत्य वाद्यध्वान सर्वाविधो विधू नुते अग्निक्सभस्थे महति चक्षुषा निजीकीषते आक्रम्य वाजिम् पृथिवीमग्निमिच्छर्जात्वम् भूमे अर्वृत्वाय नोग्रोह्यतः खणे वयम् योत्स्थे ए पृष्ठम् पृथिवीतधस्थमात्मान्तरिक्षमुद्रो योनिः भिक्षाय चक्षुषा त्वमभितिष्ठवृतन्यतः पुत्रा मम हते सौभागायास्मादास्थाना अद्रविनो दावा आदिन् वयर्भ्यस्यामसु मतौ पृथिव्या अग्निम् खनम् स उपस्थे उदक्रमे द्रविणोदावाद्यर्वाकस्तु लोकग् सुप्रेतम् पृथिव्याम् ततर्खनेमसु प्रतीकमग्निभ्यस्वो रुहा आत्त्वा आजिघर्मि मनसा धृतेन प्रतिक्षियम् तम्भुवनानि विश्वाश्चावयसाधृहन्तम् व्यतिष्ठमन्मैरभसम् दृशा आनम् आविश्वतः प्रत्यन्तम् जिघर्म्य रक्षसा मनसा तज्जूषेता अर्यश्रीरजद्वल् नो अभ्यर्णाभिमृते तन् वाजद्भूराणः परिवाजापतिः कविरग्निर्हव्यान्यक्रमीत्नादितातुषे परित्वात्मे पुरम् वयम् विप्रज्ञेसहस्य धीमहि ऋषस्वरम् नन्दिवे जीवेस्तारम्भङ्गुरावताम् स्वमह्ने द्विभिस्त्वमानासु सुखनिस्तमभ्यस्तमस्मनस्परी त्वं वने लभ्यस्तमोषीभ्यस्तृणाम् नृपतेजायसेतुचीः देवस्यत्वा सवितुः प्रसवेऽस्मिना अस्माहुभ्याम् ऊष्मा हस्ताभ्याम् पृथिव्याः स आदग्निम् पूरीष्ट्यामङ्गिरत्वत्खनामि ज्योतिष्वन्तम्त्वाज्ञेषु प्रती एकमजस्तेणभानुनाती ज्यतम् शिवम् प्रजाभ्योहिसन्तम् पृथिव्याः सधस्था लज्जम् पूरीष्कङ्गिरस्वस्था नामः अवाम् पृष्ठमदिजोनिरग्ने समुद्रमभितबिन्वमानम् स्वर्धमानो महा आचपुष्करे शिवो मात्रय वरिम्ना प्रतस्वात् शन्मजस्थो वर्मा चोच्छिद्रे बहुले बुधे विजस्वती संवदाम् धृतमग्निम् पूरीक्ष्यम् संवदाभार्विदासमीति पुरदात्मना अग्निमन्तर्भरिष्यन्ति ज्योतिष्मन्तमजस्रमित् पुरीश्योऽपि विश्वभा अथर्वात्वा प्रथमोऽनिलमन्त्रदग्ने वा लग्ने पुष्कदासद्यथर्वानिलमन्त्रता मोध्ना विश्वस्य बाधताः समुत्तादभ्यम् गृहिः पुत्रै अथर्वणः निर्ग्रहणम् गुणन्दकम् प्लवत्वापास्य विशासमेतेदस्य मन्तमम् धनञ्जयज्ञ रणे रणे शीलहोतस्वभूलोकेऽपि कृत्वाम् सादया आजिज्ञोकृतस्य योनौ देवावीयद्देवान्भविषायजास्यग्ने बृहत्य जानेव यो धाः योता आहो त्रिषदनेविदानश्रेषो दी दिवाँ आसदत्सु दक्षाः अलद्भौरतप्रवतिर्वशिष्ठः सहस्रम् भरस्तु जीजिह्वो अग्निः ग्नसि ईदस्वशिषोजस्व देववीतमः विधोममग्ने अर्हम् मीयेभ्यसृजप्रसस्तदर्शतम् अपो देवी वृपतृज मधुमतीरयक्ष्माय प्रजाभ्याः सा आमास्तानाविजीहता मोषदयस्तु विप्पलाः ते एवायन् मा हृदये स्वा आ दधातोत्थानाया हृदाय यद्विकस्तम् श्रो देवानाञ्चरति प्राणते येन कस्मै देववशालस्तुभ्यम् सुजा आतो ज्योतिषा सह कर्मवरोधमासध पासो अग्ने विश्वरो पद्मे संज्ञायस्वविभाववा नो देव्या धिया विशेषभासादिर्भतासु युक्पनिराग्ने याहिषु सख्मिभिः ओध्वभूषुणा भूतये तिष्ठा आ देवो न स पिता ो वाजस्य सनीतायदञ्जिभिर्भागद्भिर्वियामहे स जातो गद्भो असि तस्योरज्ञे दारुर्विभृतकोषाधीषु चित्रकृषु परितमाभ्यस्य कोऽन्तमातृभ्य अधिकनिक्रमद्वाः शिरोभावभेसद्भावभाज्यर्वन् पृथग्भावसृषदस्तमग्नेः पूरीशवाहनः शिवो भावप्रजाभ्यो मानुषेयस्पमम् गिरः मात्या वा आपृथिवी अभितोऽतीयन्मान्तरिक्षम् मा वनस्पती ैसूभाजीकनिक्रदन्नानभद्रासभत्पत्त्वा भरम् नद्यम् को दीयश्यम् वापाद्यायुषः पुरा मृषाद्यम् वृषाणम् भरम् नपाम् गर्भग्नसमुद्रियम् अग्न आया आहि वीतये कृतज्ञ सत्यमृतज्ञ सत्यमग्निम् पूरीक्ष्य मङ्गिरस्तद्भरामः ओषधयप्रतिमोदध्वमग्निमेतज्ञ शिवमायन्तमभ्यत्र युष्मा यच्छन् विश्वा अमीरा अमी एवानिषीलम् अपरुन्मतिञ्जभि घोषयप्रती गृभ्रीतपुष्पमती स्तुतिः पला अयम् भोगभ्र ऋत्रियः प्रत्मज्ञधः समासदत् पिपाचता सुनाथोऽशो चानो बाधस्वद्विषो रक्षसो अमीयीमा सुशर्मणो बृहतः शर्म निश्यामग्नेरभज्ञ सुरभवस्य आबोधिष्ठाम यो भुवत्तान भूवद्येन धातना मृगेरणा आयचक्षसे योगस्य मलमोलसस्तस्य भारयते हनाः उशतीव मातराः तस्मा अरङ्गमामभो यस्य क्षया आयजिन्वभा आबो जन्या हो मित्रः सज्ञसृज्या पृथिवीयम् भूमि तज्ज्योतिषासहासञ्जातवे एतसमयक्ष्मायत्वा सज्ञ तृजामि प्रजाभ्याः रुद्रास्सज्ञा पृथिवीयम् बृहज्ज्योतिस्तमीधिरे येषाम् भानुगजस्त शुक्रो देवेषु रोचते तद्यसृष्टाम् वसोभिरुद्धैरीरैः कर्मण्या मृदम् अस्ता अभ्राम् मृद्वी वृत्तासीनि बाली कृणोतु ताम् इनी बाली सुकपर्दासु कुवीराौ पसा दुभ्यमतिते मस्योकान्तधातुहस्तयो उखां मुखाम् क्रेणोतु सत्या बाहुभ्यापरीतिया माता पुत्रै सोपस्थेताग् निन्दीभक्तु गद्भ मखश्च शिरोऽिवसवत्ता कण्वन्तु गायत्रेण छन्दसाङ्गिरस्वद्भ्रुवादी पृथिव्यादि ारयामजप्रजाज्ञराजः कोढम् गोपत्यज्ञातान्यजमानाया क्षुद्रास्ताः कृण्वन् तत्रेयशोभेरच्छ्रन्दसाङ्गिरस्त्रुवास्यन्तरिक्षमसि रया वै प्रजाज्ञ राजस्पोषम् गोपत्यज्ञ सुवीर्यज्ञसजाताङ्गजमानाय आवित्या स्वाः कृण्वन्तु जागते न <mí> ारयामय प्रजाज्ञरायोषम् गोपत्यज्ञ सुवेर्यज्ञ सजातान्निलमानाया देवा वै विश्वा नरात्रन् धारयामयि प्रजाज्ञ राजस्पोषम् गोपत्यज्ञ सुवीर्यज्ञसजातान्यजमानाया अदिरास्नास्य निष्ठेऽभिलम् गृह्णातु कृत्वा यथा महीमुखाम् हृण्मयी योगीमग्नये पुत्रे पुत्रेभ्यः प्रायच्छदतीति स्रपजाहिति स्वतावस्वाधूपयन्तु गायत्रेण गच्छन्त साङ्गिरस्त्व आधूपयन्तुत्रेभे नच्छन्त साङ्गिरस्वत् आदित्यास्वा आधूपयन्तु जाग्रते नक्षन्ददाङ्गिरस्वद्विश्वे यस्वा देवा वै विश्वानलाधू गोपयन्तानष्टभे नक्षन्द साङ्गिरस्वत् इन्द्रस्ताभूपयतु वरुणस्वाधूपयतु विष्णुस्ताधूपयतु अनीतिस्वा देवी विश्वरेयम् यावती ्यास्तस्थे ए अङ्गिरस्वत्खणत्ववटात् देवाना अन्तापत्नी यद्देवीयर्विश्वदेवम् यावतीः पृथिव्यास्तधस्थे ए अङ्गिरस्वग्धुखे विषणा अस्ता देवीयर्विश्वदेवम् यावतीः पृथिव्या स्वधस्ते अङ्गिरस्वदभिन्दधामुखे परोस्तेष्टा देवीयर्विश्वदेवम् यावती पृथिव्यास्वधत्से अङ्गिरस्त्वच्छापयन्तु गे नास्त्वा देवीयर्विश्वदेवम् यावती पृथिव्यास्तधत्थे अङ्गिरस्त्वत्पादन्तु गे जनायत्वाच्छन्नपत्रा देवीयम् दे विश्वदेवम् यावतीः पृथिव्यात्सधस्थे मङ्गिलस्वसा चन्दोगे मित्रस्य चरिषणीधृतो वो देवस्य सा नति चित्रस्य वस्तमम् देवस्वा आसमितोपतुषु पाणिष्वम् गुरिष्वो बाहुतश्याव्यमाना पृथिव्यामासादिशः प्रेरणा उत्थाय बृहती भवो दो तिष्ठुवान् कृताम् समुखाम् परिदताम्यभित्याघ्येता मा भेही वस्ताक्षं दन्तु गायत्रे रक्षन्दाङ्गिरक्पत् आदित्यास्ताच्छन् सन्त्वजागते नन्द्रसाङ्गिरस्वद्विश्वे नत्वा देवा मेयुस्वानरा आच्छन् सन्तानस्त्वभेन छन्द्रसाङ्गिरस्वत् आहूतिमग्निम् प्रयुजग्रस्वाहा म् विज्ञातमग्निम् प्रयुजन् गस्वाहाचो विभृति मग्निम् प्रयुजन् ग स्वाहा प्रजापातये मनदे स्वाहाग्नये एवै स्वानराय स्वाहा विश्वो देवस्य नेत्रन्मत्तो पुरी प्रदक्षिणम् विश्व औदाय येषु ध्यतिद्युम्नम् वृणीतपुष्यसे स्वाहा मातुरित्था मासुरिषोऽ धृष्णुवीदय स्वसु अग्निश्चेदङ्कारिष्य सः दृग्हस्तदेविपृथिविः सत्तया आसुरी माया सतया आकृतासि ष्टम् देवेभ्य इदमस्तु हव्यमरिष्टात्वमुदीः यज्ञे अस्मिन् ग्रन्नः सत्तिरा सुतिः प्रस्नो तामरेऽन्यः सह सत्पुत्र अद्भूतः वरस्याधिसम्बतो वरा अध्यात यत्राहमस्मिता परमश्चाः परावतो ओरोहिदस्वहिहा गर्हि ग्रीष्यः कुरु प्रियोग्ने स्वन्तरामृधाः यदग्ने कानि कालीदाते दारूणि दध्वसि सर्वम् तदस्त्वे घृतम् तज्जोषस्वयविक्त्याोपजिक्तिकाय त्वम् रतिसति सर्वम् तदस्तुते घृतम् लज्जूषस्तयविष्ट्या हर हरप्रायाबम्भदन्तो स्वा आदेव निष्ते भासमस्मै प्रायः कोटे एनसमिषामदन्तो गे माते प्रतीवेशायिषा मा भा आपृथिव्याः समिधाने अग्नौ राजस्तोषा आय बृहते हवामहे इरम् मदम् बृहदुत्थम् यजद्वृञ्जेता आरमग्निम् पृतनासुता सहिम् या स्ना अभीप्तरीरा व्याधिनेरुगणाहुता ेस्तेनाये ततस्तग्रष्टे अग्नेऽपि दधास्ये तद्गष्टाभ्याम् मलिम् दोन्यम् धेयस्तत्करा अनभ्याद्ग्रस्तेनान्धारभक्ताग्रः पङ्खाः दसुखादितान् ये जने एष मलिम् लावस्ते नास्तवने ये कक्षे एष्वघायवस्ताग्रस्ते एधामिजम्भयो यो, यो अस्मभ्यामराधीराद्यश्च नो द्वेष ते जनाः इन्दाद्यो अस्मान् दिप्सा अस्य सर्वम् तम् अस्मसा कुरु सर्गशीतम् मे ब्रह्म सर्गशीतम् वीर्यम् बलम् सर्गशीतम् क्षत्रम् जिष्णु यस्याहमस्मि पुरोहीतः पुने एताम् बाहु अतिरमुद्वर्चो अथो बलम् शिणोमि ब्रह्म नामित्रानुन्नयामि स्वा अहम् अन्नपदेऽन्नश्च नो देह्य दीपश्च ऋक्मिनाः हृप्रदातारम् तारिषभूवजरन्न देहिपदे च बृहपदे घृतेन त्वम् तन्वम् वर्धयस्व सत्याश्वम् तु यजमानस्य कामा स्वाहा ओध्यायः अथ त्रयोदशोऽध्यायः नो ऋक्मवुर्याव्यो धुर्मर्षमायुश्रिये रुचा नः अग्निरमृतो अभवत्तयो अभिर्यते एनन्द्यौरजनयत्सुरेता आह नः तोषा सा समानसा विरो ओपेघापये एते शिशुमेके समीची वा क्षामा आरुक्मा अन्तर्विभा आदिदेवा अद्यभा आरयन्द्रविणोदाः विष्पा आरूपाणि प्रतीमुञ्चते कविः प्रासा आवीरभद्रन्धिपदे चतुष्पदेनाकामख्यसभितावरेण्यानप्रजानामुखसो विरा आजति सुपर्णा आदिगरुत्मा अग्रस्त्रवृत्तेराः कायत्तन्तक्षगृहद्रथन्तरे पक्षौ सोमा आत्माच्छन्तास्यङ्गा आनियजोगृषिनाम सा माते तनोर्वा आमदेव्यै यज्ञायज्ञियम् पुच्छन्दि अस्वभाः न्नोसि करत्वान् दिवम् गच्छस्वः पदात् कृष्णाक्रमोऽसि सपत्नः गायच्छन्द आरोह पृथिवीमन विक्रामस्वा कृष्णाक्रमोऽस्यभिमादिघात्रेष्टो भञ्छन्द आरोह अन्तरिक्षमनविक्रामस्वा कृष्णाक्रमोऽश्चलादी यतो हन्ता जागत छन्द आरोह शिवमनुविक्रमस्वा कृष्णाक्रमोऽधिशत्रो यतो हन्ता निष्कभारो यो न विक्रमस्वा क्रन्तदग्नित्रनयन्निवत्योक्षामारेरीभद्वीरुधः सभञ्जन् सत्यो जज्ञानो मि मिथ्यो अख्यदाोदशीभानुना भाष्यन्तः हर्ते अध्यावर्तिन्नभिमानिभत्रयुषावर्त्रसा प्रजजाधनेन सञ्ज्ञामेधया आ रय्यापोषेण अग्ने ए अङ्गिरः स्वतन्ते एतन् पावृतः सहस्रम् तवुपावृताः अधपोषस्य पोषेण पुनर्न्न नष्टमाकृभिः पुनर्न रयिमा कृभिः पुनरुद्यानिभक्तस्त पुनरज्ञयिषायुषा पुनरन्वप्यज्ञः सः सहदैया निवक्तस्ताग्नेन्वस्तधाराया विश्वप्न्याः विश्वतत्परी आप्ता आहारिषमन्तरभूवद्भुवत्तिष्ठा गीताचलिः विसस्ता पुरुत्तमम् वारुणपासमत्पदवा आधमम् विमध्यमग्रथाया अथा आभयमा आदित्यम् रसेतवाना आगसो अदीतये स्यामा अग्रे एबृहन्नुषसा आमोद्धोवत्स्थान्यजगन्वात्तमसो ज्योतिषागात् अज्ञभानुनारुधतास्वङ्ग आजातो विश्वा सद्मा अन्यप्रा अग्ने स्वसो जिषत्त्वसोऽरन्तरिक्षसद्भोता आवेदिषतति कृतत् दृषत्वा रसदृतसद्यो मसोजारेतजा अद्रिचारसम् दृषत् श्रीनत्वम् मातुरस्या उपस्थे विश्वान्यज्ञे वयुनानि विद्वान् वैनान्तपसामाजिषाभिषो अतिरन्तरस्यार्विभाहि अन्तरज्ञेरुदात्तमुखायाः सदने स्वे तस्यास्त्वग्रहरसातपञ्जातवेद शिवो भावा शिवो भो त्वामह्यमग्ने